हरि ओम् श्री सीतारामचन्द्रध्यमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे द्विसप्ततितमः सर्गः रावणस्य चिन्ता पुरी वधानार्थं राक्षसान् प्रत्यादेशश्च अतिकायं हतं श्रुत्वा लक्ष्मणेन महात्मनः उद्वेगम् मगमद्राजा वचनं चेदमब्रवीत् धूम्राक्ष परमामर्षि सर्वश्च भूताम्बरः अकम्पन प्रस च कुम्भकर्णः तथैव च एते महाबरा वीरा रक्षसा युद्धकाङ्क्षिणः जे तारः परसैन्यानां परे नित्यः पराजितः सैन्यसे हता वीरा रामेणा क्लिष्टकर्म राक्षसा सुमहाकाय नानाशस्त्रविशारदा अन्ये च बहवैशुर महात्मानो निपातितः प्रख्यात बलवीर्येण पुत्रेणेन्द्रजिता मम तो भ्रातरौ तदा बद्धौ घोरै दत्तवरे शरी यन्न शक्यं श्रु असुरैर्वा महाबलैः मोक्तुं तद्बन्धनं घोरं यक्ष गन्धर्वपन्न तन्न जाने प्रभावैर्वा माय मोहनेन वा शरबन्धान् विमुक्तौ तौ भ्रातरो रामलक्ष्मणौ ये योधा निर्गता शूराय राक्षसा मम शासनात् ते सर्वे नियता युद्धे वानरैः सुम बलै युद्धे योग्य रामं स लक्ष्मणम् नाशये वीरं स विभीषणं विभीषणम् अहो सुबलवान् रामो महदस्रबलं च यस्य विक्रममासाध्य राक्षस निधनं गतः तं मन्ये राघवम् वीरम् नारायण मनामय ती पुरी ला पीहते द्वार तोरण अप्रम्त्मे रक्षा पुरी अशोक वनिका चीता निष्क्रमो व वा प्रवेशो वातव्य वा, सर्वैंत्र भवद गुम तत्र तत्र पुनः पुनः सर्वतैश्चापि तिष्ठवृता बलैः द्रष्टव्यं च पदम् तेषाम् वानराणाम् निशाचरः प्रदोषे वा धरात्वे वा प्रत्यूषे सर्वशः न वज्ञा तत्र कर्तव्या वानरेषु कदाशन बलमुद्युक्तम् आपत् किं स्थितम् यथा ततस्ते राक्षसा सर्वे श्रुत्वा लङ्काधिपश्च वचनम् सर्वमातिष्ठन् यथावत्तु महाबरः तान् सर्वान् हि समादिश्य रावणो राक्षसाधिपः मन्युषल्यम् वहन्द प्रविवेश स्वमालयं, ततः सन्धि निशाचराणाम् अधिपो महाबल तदेव पुत्र व्यसनं विचिन्तयन् मुहुर्मुहुर्तैव तदा विनिश्वसन् विचार्यै श्रीमद् रामायणे वाल्मीकीय अधिकार्ये युद्धकाण्डे द्विसप्ततितम स्वर्ग श्रीसीता रामचन्द्रार्पणमस्तु